श्रीमद्भागवत महापुराण दसम स्क अथको नतीत तमोध्याय भृगुजी के द्वारा त्रिदवों की परीक्षा तथा भगवान का मरे हुए ब्राह्मण बालकों को वापस लाना श्रीशोकुवाच सरस्वतटे राज वितर्कसम्भुद्धे सां तिष्वधिको महान् तस्य जिज्ञासयातो वै भृगुं ब्रह्म सुतं नृप तद्याप्तै शेषयामाशोषोऽभ्यगाद्ब्रह्मण आत्मन्युत्थितं मन्युम् आत्मजायात्मना प्रभो आसि समञ्जथा वह्निं स्वयोन्यावारिणात्मभो ततः कैलासमगमं स तं देवो महेश्वरः परिरब्धुं क्षमारेभे उत्थाय भ्रातरं मुदाम् नैषत्वं मय्योऽस्पथग इति देवश्च कूपुं कोपः स्थूलमुद्यम्यतं हन्तुम् आरेभे तिङ्मलोचनः पतित्वा पादयोर्देवी सान्त्वयामास तं गिराम् अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः शयानं श्रियौत्सङ्गे पदाभ्यश्च ताडयत् ततोत्थाय भगवान् स लक्ष्म्या सतां स्वतल्पादवरुशाथ न नाम शेषामुनिम् आहति स्वागतं ब्रह्मण्यसीदात्रासने क्षणम् अजानतामागतान् वशन्तुर्मर्हथ न प्रभो अतिव कोमलौ महामुने इत्युक्त्वा विप्रचरणौ मर्दयन् स्वेन पादोदकेन भवतस्तीर्थानां तीर्थकारिणा अद्याहं भगवल्लक्ष्म्या आसु मेकान्तभाजनं वस्यत्यो रसि मे भूते भवत्पादहतां हसः शेषो उवाच एवं ब्रुमाणे वैकुण्ठे भृगुस्तन्मद्रया गिराम् निविस्तर्पितस्तुष्णिं भगवत्युत्कण्ठोऽशुलोचनः पुनश्च सत्रमं माव्रज्य मुनिनां ब्रह्मवादिनां स्वानुभूतम् अशेषेण राजन् प्रगुरुवर्णयत तन्निसम्याथ मुनियो विस्मृता मुक्तसंशयाः भूयासं सध्वविष्णुं यतशान्तितो भयम् धर्मः साक्षाद्यतो ज्ञानं वैराग्यं च तदन्वितम् ऐश्वर्यं चाष्टधायस्माजसश्चात्ममलापहम् मृणाम् न्यस्तदण्डानां शान्तानां समुचेतसाम् अकिञ्चनानां साधूनां यमाहुः परमां गतिम् सत्वं यस्य प्रियामृतिर्ब्राह्मण त्विष्टदेवताः भजन्त्यनाशिषशान्तायं वा निपुणबुद्धयः त्रिविधाकृतयस्तस्य राक्षसा आसुरासुराः गुणिन्यामाय आशिष्टा सत्त्वं तत्तिर्तसाधनं शेषुकुवाच एवं सारस्वताभिप्रापृणां संशयनुदये पुरुषस्य पदाम्भोजसेवया तद्गतिं गता श्रुत्वाच इत्येतन्मुनितनयां पद्प्रपद्य गन्ध पीयुषम् भवभयभीतपरस्य पुंस सुश्लोकं श्रवणपुटये पबन्त्यभिक्षणं पान्थोद्वभ्रमणं परिश्रमं जहाति शेषु कुवाच एकदा द्वारबत्यां तु विप्रपत्न्या कुमारकः जातमात्रो भुवं सृष्ट्वा ममार किल भारत विप्रो इदम् प्रोवाच विलुपन्नातुरोदीन मानसः ब्रह्मं ब्रह्मजितजियो लब्धस्य विषयात्मनः क्षत्रबन्धो कर्मदोषात् पञ्चत्वम् मे गतोर्भकः हिंसाविहारं नृपतिं दुःशीलमजितेन्द्रियम् प्रजाभजन्त्य सीदन्ति दरिद्या नित्यदुःखिताः एवं द्वितीयं विप्रर्षेत्तीयं देवमेव च विसृज्य स नृपद्वारी तां गाथां सुमगायत तामर्जुन उपसृत्य कर्हि चित्के समान्तिके परे बाले ब्राह्मणं समभाषत किं चिन्ब्रह्मा त्वन्निवासे इह नास्ति धनुर्धरः राजन्यबन्धुरे ते वै ब्राह्मणा सत्र आशते धनुतारात्मजा प्रिक्ता यत्र सोचन्ति ब्राह्मणाः तेवै वै राजन्यवेशेन नरा जीवन्त्य अहं प्रजावां भगवन् रक्षिष्ये योरिह अनिष्टेण प्रतिज्ञोऽग्निम् त्रवेक्षेहत कल्मष ब्राह्मण सङ्कर्षणो वासुदेव प्रद्युम्नो धन्विनाम्बरः अनिर्द्धो प्रतिरथो न त्रातुं शक्नुवन्ति यत् तत्कथं नो भवान् कर्म दुष्करं जगदीश्वरैः चिकित्ससि त्वं बालिः स्यात् तन्न श्रद्धाद्महे वयम् अर्चिनुवाच नाहं शङ्कर्षणो ब्रह्मण् कृष्णकार्णिरेव च अहं वा अर्जुनो नाम गाण्डीवं यस्य वैधनुः मामस्थां मम ब्रह्मन् विजत्य प्रधने आनेश्येते प्रजां प्रभु